नारदपुराणम् उत्तरार्धम् अध्यायम् 56 वसुरुवाच अन्यशृणुमहाभागे तस्मिन् श्रीपुरुषोत्तमे तीर्थव्रजम् महत्पुण्यम् दर्शनात् पापनाशनम् अनन्ताख्यम् वासुदेवम् दृष्ट्वा भक्त्या प्रणम्य सर्वपापविनिर्मुक्तो नरो यादिपरम् पदम् श्वेदगङ्गाम् नर स्नात्वा यः पश्येच्छदमाधवम् मत्साख्यम् माधवम् चैवेदद्वीपम् स गच्छति तुषारप्रतिमम् शुद्धम् शङ्खचक्रगदाधरम् श्रीवत्सवक्षसयुक्तम् सुप्रसन्नं च दुर्भुजं वनमालावृतोरस्कम् मुकुडाङ्गदधारिणम् पीदवस्त्रम् सुपीनां कुन्दलाभ्यामलम् कृतं कुशाग्रेणापि राजेन्द्रश्वेद गाङ्गेयमेव च पृष्ट्वा स्वर्गं गमिष्यन्ति विष्णुभक्ताः समाहिदाः यस्त्वी मां प्रतिमां पश्येन्माधवाख्याम् शशिप्रभां सङ्ख गोक्षीरसङ्काशामशेषाख विनाशिनीं तां प्रणम्य सकृद्भक्क्रिया पुण्डरीकनिभेक्षणां विहाय सर्वकामान्वै विष्णो लोके महीयते मन्वन्तराणि तत्रैव देवकन्याभिरावृतः गीयमानश्च सिद्ध सिद्धविद्याधरार्चितैः भुनक्तिविपुलान् भोगान्यथेष्टं दैवतैः सह च्युद तस्मादिगाहत्य मानुष्ये मानुष्ये ब्राह्मणो भवेद् वेदवेदाङ्गविद्धीमान् भोगवांश्चिरजीवितः गजाश्वरथयानाढ्यो धनधान्यवृतशुचिः रूपवान् बहुभाग्यश्च पुत्रपौत्र पुत्र, समन्वितः पुरुषोत्तमम् पुनः प्राप्य वडमूलेधसागरे त्यक्त्वा देहम् हरिं स्मृत्वा ततः शान्तम् पदं व्रजेद श्वेदमाधवमालोक्यसमीपे मत्स्यमाधवम् यकार्णवेजले पूर्वं रूपं रोहितमास्थितः वेदानां हरणार्थाय रसातल स्थलेष्टिदः चिन्तयित्वा क्षितिं मत्स्यम् तस्मिन् स्थाने व्यवस्थितम् आधाय तरुणं रूपम् माधवम् मत्स्यमाधवम् प्रणम्य प्रयदो भूत्वा सर्वान् कष्टान् विमुञ्चति प्रयादि परमं स्थानं यत्र देवो हरिस्वयं काले पुनरिखायान्तो राजा स्यात् पृथिवीतले मत्स्यमाधव मासाद्य दुराधर्शो भवेन्नरः दादा भोक्ता भवेद् योद्धा वैष्णव सत्यसङ्करः योगं प्राप्य हरे पश्चात्तदो मोक्षमवाप्नुयाद मत्स्यमाधवमाहात्म्यं मया दे परिकीर्तितम् यम् दृष्ट्वा ब्रह्मतनये सर्वान् कामान् अवाप्नुयाद मार्जनम् तत्र वक्ष्यामि मार्कण्डे यह्रदे शुभे भक्त्या तु तन्मना भूत्वा पुराणम् पुण्यमुक्थिदम् मार्कण्डे यह्रदे स्नानम् सर्वकालम् प्रशस्यसे प्रशस्यते चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् तद्वत् स्नानं समुद्रस्य सर्वकालम् प्रशस्यते पौर्णमास्यां विशेषेण हयमेधफलं लभेद पूर्णिमा ज्येष्ठमासस्य यदा भवेद् गच्छेद्विशेषेण तीर्थराजं परं यवाङ्मनसै शुद्ध सद्भावो नन्यमानसः सर्वद्वन्द्वविनिर्मुक्तो वेदराघो विमत्सरः कल्पवृक्षं वडं रम्यं यत्र साक्षाज्जनार्दनः प्रदक्षिणं प्रगुर्वेदं त्रीन् वारान् सुसमाहितः दृष्ट्वा नश्यति यत्पापं जन्म जन्मसमुद्भवम् पुण्यं प्राप्नोति विपुलं गतिमिष्टं च मोहिनि तस्य नामानि वक्ष्यामि सप्रमाणं युगे युगे वटं वडेश्वरं शान्तं पुराणपुरुषं विदुः वटस्य इतानि नामानि कीर्तितानि कृतादिषु योजनं पादहीनं च योजनार्थतदर्थकं प्रमाणं कल्पवृक्षस्य कृतादिषु यथा क्रमं पूर्वोक्तेन धुमन्त्रेण नमस्कृत्वा चतं वटं दक्षिणाभिमुखो गच्छेत् धन्वन्तरशतत्रयम् यत्रा सौ दृश्यते चिह्नं स्वर्गद्वारं मनोरमं सागरां तत्समाकृष्टं काष्ठं सर्वगुणान्वितम् प्रणिपत्य ततस्तिष्ठेत् परिपूज्य ततः पुनः मुच्यते सर्वपापौ कैष्ट पापग्रहादिभिः उग्रसेनः स्वर्गद्वारेण सागरं गताचम्य शुचिस्तत्र नारायणं परं न्यसे दष्टाक्षरमन्त्रं पश्चाद त शरीरयोः ॐ नमो नारायणा येदि यं वदन्ति मनीषिणः किं कार्यम् बहुभिर्मन्त्रैर्मनो विभवतारकैः नमो नारायणा येदि मन्त्रसर्वार्थसाधकः आपो नरस्य सूनुत्वान्नारायिदिहकीर्तिताः विष्णोस्तस्त्वालयम् पूर्वम् तेन नारायण स्मृतः नारायणपरा वेदा नारायणपरा द्विजाः नारायणपरम् ज्ञानम् नारायण पराक्रिया नारायणपरो धर्मो नारायणपरम् तपः नारायणपरम् दानम् नारायण परं व्रदम् नारायणपरालोका नारायणपरा सुराः नारायणपरं नित्यं नारायणपरं पदं नारायणपरापृध्वी नारायणपरं जलं नारायणपरो वह्निर्नारायणपरं नभः नारायणपरो वायुर्नारायणपरं मनः अहङ्कारश्च बुद्धिश्च ऊभे नारायणात्मके भूतम् भव्यम् भविष्यच्च यत्किञ्चिज्जीवसञ्जितम् स्थूलम् सूक्ष्मम् परम् चैव सर्वम् नारायणात्मकम् नारायणात् परम् किञ्चिन्नेकपश्यामि मोहिनि तेन व्याप्तमिदम् सर्वम् दृश्यादृश्यम् चराचरम् आपोह्यायतनम् विष्णोः स च सावम्भसाम्पतिः तस्माद्प्सु स इत्येवं नारायणमकापहम् स्नानकाले विशेषेण चोपस्ताय जले शुचिः स्मरे नारायणं ध्यायेद्धस्ते काये च विन्यसेद ओङ्कारं वाम कट्यां तु नाकारं दक्षिणे तथा राकारं नाभिदेशे तु यकारं वाम बाहुके नाकारम् दक्षिणेऽन्यस्य यकारम् मूर्ध्नि विन्यसेद अधश्चोर्ध्वम् च हृदये पार्श्वदः पृष्ठतो ग्रदः ज्ञात्वा नारायणम् पश्चादारभेत् कवचम्बुधः पूर्वे माम् पादु गोविन्दो दक्षिणे मधुसूदनः पश्चिमे श्रीधरो देवकेशवस्तु तथोत्तरे पादु विष्णुस्तदाग्नेये नैहृदे माधवो व्ययः वायव्ये दु कृषिकेशस्तधे शने जवामनः भूदले पादु वाराहस्तद्धोर्ध्वे जत्रिविक्रमः कृत्वैवं कवचं पश्चादात्मानं चिन्तयेत्तदः गम्नारायणो देव शङ्खचक्रगदाधरः येवं ध्यात्वा तदात्मानमिमं मन्त्रमुदीर्येद त्वमग्निर्द्विपदां नाथ रेदोद्धा कामदीपनः प्रधानसर्वभूतानां जीवानां प्रभुख्ययः अमृतस्यारणिस्त्वं हि देवयो पदे वृजिनम् हरमे सर्वम् तीर्थराज नमोऽस्तु ते एवमुच्चार्य विधिवत्तदस्नानम् समाचरेद अन्यधा ब्रह्मतनये स्नानम् तत्र न शस्यते कृत्वा चाब्दैव तै मन्त्रैरभिषेकम् च मार्जनम् अन्तर्जले जपन् पश्चात्त्रिरावृत्याकमर्शनम् हयमेधो यथा देवि सर्वपापहरक्रदुः तथाखमर्षणं चात्र सूक्तम् सर्वाकपर्षणम् उत्तीर्य वससि धौदे निर्मले परिधाय च प्राणानायम्य चाचम्य संध्यां चोपास्य भास्करम् उपातिष्ठे तदश्चोर्ध्वम् क्षिप्त्वा पुष्पजलाञ्जलिम् उपस्थायोर्धबाहुश्च तल्लिङ्गैः भास्करं तदः गायत्रीं पावनीं देवीं जभेदष्टोत्तरं शतम् अन्यांश्च स्वरमन्त्रान् हि जत्वा तिष्ठन् समाहितः कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च स्वाध्यायं प्राङ्मुखकृत्वा तर्पयेत् देवमानवान् ऋषीन् पितॄन् हि स्वीयांश्च विधिवन्नामगोत्रविद स्तोयेन तिलमिश्रेण विधिवत्सुसमाहितः श्राद्धे कवनकाले च पाणिनैकेन निर्वपेद ना तर्पणे तु भयं गुर्यादेश एव विधिः सदा अन्वारब्धेन सव्येन पाणिना दक्षिणेन दु ृप्यदामिति सुव्यक्तं नाम गोत्रेण वाग्यदः कायस्तैर्यस्थिलैर्मोहात् करोदि पितृतर्पणं तर्पितास्तेन पितरस्त्वं मांसरुधिरास्तिभिः जले स्थित्वा दत्तं स्थले स्थित्वा अर्पितं नोपतिष्ठति तत्तोऽयं यद् पितॄणामक्षयं स्थानं मही दत्ता विरचिना तस्मात्तत्रैव दातव्यं पितॄणां प्रीतिमिच्छदा भूमिस्तेन समुत्पन्न भूम्यां चैव संस्थितम् भूम्यां चैवलयं यादि भूमौ दद्यास्तदो जलम् अस्ति यजकुशन् साग्रानावाह्य मन्त्रदः प्राचीनाग्रेषु वैदेवान्याम्याग्रेषु तथा पितृन् इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये षट्पञ्चाशत्तमोऽध्यायः ओम्